नारदपुराणम् पूर्वार्थम् अध्यायम् 115 अण्ड् फिफ्टीन् सनातन उवाच शृणु विप्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि यानि सम्यग् विधायात्र लभेत् सर्वान् मनोरथान् चैत्रमासे शुक्लषष्ट्यां कुमारव्रतमुत्तमम् तत्र ष्ट्वा षण्मुखम् देवम् नाना पूजा विधानदः पुत्रम् सर्वगुणोपेदम् प्राप्नुया चिरजीविनम् वैशाखशुक्लषष्ट्याम् च पूजयित्वा च कार्तिकम् लभदे मादृजम् सौख्यम् ज्येष्ठमासे शुक्लषष्ठ्याम् विधिनेष्ठवा दिवाकरम् लभदेवाञ्चिदान् कामांस्तत्प्रसादान्न संशयः आषाढशुक्लषष्ठ्यां वैस्कन्दव्रतमनुत्तमम् उपोष्य पूजयित्वैनं शिवो मा प्रियमात्मजम् लभदेभीप्सिदान् कामान् पुत्रपौत्रादिसन्ततिः श्रावणे शुक्लषष्ट्यां दु शरजन्मा शरजन्मानमर्चयेद् उपचारयिषोडशभिर्भक्त्या परमयान्विदः लभदे प्रसादतः पाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरा वृदा शुक्लमाल्यय धरा वापि नद्या सङ्गमवालुकाम् गृहीत्वा वंश पात्रे दु धृत्वा पिण्डाकृतिम् च ताम् पञ्चधा ललिताम् तत्र ध्यायेद्वनविलासिनीम् पङ्कजं करवीरं च तथा नीलोत्पलं केतकीं च सङ्गृह्य तगरं तथा एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेवजा अक्षदा कलिका गृह्य ताभिर्देवीं प्रपूजयेद् प्रार्थयेदग्रदस्थित्वा देवीं तां गङ्गाद्वारे कुशावर्ते विल्वाके नीलपर्वते स्नात्वा कनकले देवि हरिं लब्धवदीपदिं ललिते दे सुभगं देवि सुखसौभाग्यदायिनि अनन्दं देहि सौभाग्ये मह्यं तुभ्यं नमो नमः मन्त्रेणानेन कुसुमैश्वं पकस्व कुसुमैश्वं पकस्य शुशोभनैः अभ्यर्च्यविधिवत्तस्या नैवेद्यं पुरदोऽन्यसेदत्र पूषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः बीजपुरैः सुतुण्डीरैकारैः सचिर्भटैः दलैस्तत्कालकम्भोदैः कृत्वा शोभां तदग्रतः सार्धै विरूढधान्याङ्गुरकैः सुदीपवलिभिस्तद्धा सार्धैसर्गणकैधूपसौभालककरञ्जकैः गृढपुष्पैः कर्णवेष्टैर्मोदकैरुपमोदकैः विभवसारतः विभवसारथः यमभ्यर्च्यविधिवद्रात्रौ जागरणोत्सवं गीतवाद्यनडैर्नृत्यै प्रोक्षणीयैरनेकधा सखिभिः सखितः साध्वी तां रात्रिं प्रसभं नयेद न च नेत्रे नारियाम दुर्भगा दुष्कृदवन्द्या नेत्र सम्मिलनात् भवेद् एवं जागरणं कृत्वा सप्तम्यां सरिदं नयेद् गन्धपुष्पैस्तदाभ्यर्च्य गीतवाद्यपुरःसरैः तच्च तद्या द्विजेन्द्राय नैवेद्यादि द्विजोत्तम स्नात्वा गृहं समागत्य कृत्वा वैश्वानरं तदप देवान् पितृन्मनुष्यांश्च पूजयित्वा सुवासिनीः कन्यकाश्चैव सम्भोज्य ब्राह्मणान् दश पञ्चत भक्ष्य भोज्यैर्बहुवृद्धैर्गत्वा दानानि भूरिशः ललिता मेऽस्तु इत्युक्त्वा तान्विसर्जयेद यः दाजरे जरे देदव्रतं सौभाग्यदं परं नरो वा यदि वा नारी तस्य पुण्यफलं शृणो यतैश्च तपोभिश्च दानैर्वा नियमैरपि तदेतेनैह लभ्येत किं बहुक्तेन नारद मृतेरनन्तरं प्राप्य शिवलोकं सनातनं मोददे ललिता देव्या शैवे वै सखिवक्षिरम् नभस्ये मासीया शुक्ला षष्टी सा चन्दना क्वया तस्यां देवीं समभ्यर्थ्य लभदे तत्सलोकतां रोहिणीपाद भौमैस्तु संयुधा कपिला भवेद तस्यां रविं समभ्यर्थ्य व्रती नियमतत्परः लभदे वाञ्छितान् कामान् भास्करस्य प्रसाददः अन्नदानन्दभो होमं पितृदेवर्षितर्पणम् सर्वमेवाक्षयं ज्ञेयं कृतं ते वर्षिसप्तम कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुलेपनैः प्रदद्याद्वेदविदुषे द्वादशात्मप्रधिष्ठये अध्येषु शुक्लषष्ट्यां द्वूजा कत्यायिनी द्विजा गन्धाद्यैर्मङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा तद क्षमा देंेशी प्रणिपत विसर्जयद दे। पूजा सैगदी मूर्तिजस मुद वस्त्रकार प्रदुष्टे कन्यावरं प्राप्याच्च वांचित पुत्र पात्यायिनी प्रसादाद्वैनात्रकार्या विचारणा कार्तिके शुक्लषष्ट्यां तु षण्मुखेन महात्मना देवसेना महाभागा सर्वसुरार्पिता तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखं सम्भोज्य निखिलैरेव उपचारैर्मनोहरैः प्राप्नुयादुलाम् सिद्धिम् मनोऽभीष्टाम् द्विजोत्तम अत्रैव वन्यपूजोक्ताम् ताम् च सम्पत् समाचरेद विविधद्रव्यहोमैश्च वन्यपूजा पुरस्सरम् मार्गशीर्षे शुक्लषष्ठ्याम् निहतस्तरकासुरः स्कन्देन सत्कृति ब्रह्म माद्यै परिकल्पिता ततोऽस्यं पूज्य ये स्कन्दं गन्धपुष्पाक्षतैफलैः वस्त्रैराभूषणश्चाभि नैवेद्यैर्विविधैस्तथा रविवारेण संयुक्ता तथा शतभिषान्विदा दा यदि चेच्छ समुद्दिष्टा चम्पाह्वा मुनिसत्तम तस्यां देवो द्रष्टव्यः पावनाशनः पूजनीयो वेदनीय समर्तव्यसुखमि सौख्यमिच्छदा स्नानदानादिकं च अत्र सर्वमक्षयमुच्यते पौषमासे सुप्रषष्ट्यां देवो दिनपदिर्द्विजा विष्णुरूपीजगत्प्रादा प्रादुर्भूदासनातनः स तस्मात् पूजनीयोस्यां द्रव्यैर्गन्धपुरस्कृतैः नैवेद्यैर्वस्त्रभूषाध्यै सर्वसौच्यमपि सुभिः माघमासे सिधाषि वरुणाक्वा स्मृदातु सा तस्यां वरुणमभ्यर्च्यद्विष्णुरूपं सनातनं रक्तैर्गन्धासुखै पुष्पैर्नैवेद्यैर्धूपदीपकैः एवमभ्यर्च्य विधिवद्य चाभिलषे नरः तत्तच्चफलदो लब्ध्वा मोददे तत्प्रसादतः फाल्गुने शुक्लषष्ट्यां तु देवं पशुपतिं द्विजा मृण्मयं विधिना कृत्वा पूजयेदुपचारकैः संस्थाप्य शतरुद्रेण पृथक् पञ्चामृतैर्जलैः गन्धैरालिप्य स्विश्वेदैरक्षधैश्वेदपुष्पकैः बिल्वपत्रैश्च दत्तूरकुसुमैश्च फलैः सह तथा सम्पूजनानां नैवेद्य नीराज्य विधिवत्तदः क्षमाप्य प्रणिपत्यैनम् कैलासाय विसर्जयेत् एवम् कृत शिवार्चस्तु नरो नार्यथवा मुने इह भूत्वा वरान् भोगानन्दे शिवगतिम् लभेत् इति श्रीबृहन्मरदीयपुराणि पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्टिव्रतनिरूपणम् नाम पञ्चदशाधिकशतमोऽध्यायः ओम्